स्पृथिव्या अन्तरिक्षात्समुद्रा तग्ने वातान्मधुकषाहिजज्ञे पश्यन्त्यस्याश्च रितम् पृथिव्याम् पृथङ्गला बहुधा मी माम् समानाः अग्नेर्वासान्मथुकषाहितज्ञे मरुता मुग्रा नक्तिः भर्गश्चरतिमद्येषु महा कषामदनयम् ददेवास्तस्यागद्भो भवद्विश्वपः कञ्जागम्बरोणम् विभक्तिमाता स जातो विश्वा भुवनाविचष्टे कस्तम् प्रवेदकबुदम् चैकेतयो अस्याहृदः कलशः सोमधानोऽक्षीदः ब्रह्मा सो मेधाः सोऽस्मिन् मदेत सरौ प्रवेदसमुतौ चेकेत यावस्यास्तनौ सहस्राधारावक्षेतौ ऊर्जम् दुहाते अनापस्फुरन्तौ इङ्गलि कले बृहदेवा योधा उच्चे धर्मानभिमाहावशानामिमाहातिमायुम्पयते पयोभिः रामादीनामुपासेदम् चापश्चात् परागेशभाये स्वराजाः ते वर्षन्ति ते, ते वर्षयन्ति सद्विदे काममोर्जमापाः स नैतस्तेवा प्रजापते वृषाशुष्कम् च पति भो ग्नेर्वातान्मधुरजाहिजज्ञे मरुता मुद्रा नक्तिः यथा सोमः प्रादः सवाने अश्विनोद्भवादिप्रियः एवामे अश्विनावर्च आत्मने धेयताम् यथा सोमाद्विधेये सवान इन्द्राज्ञोर्भवादिप्रियः म इन्द्राग्ने वच्च आत्मनेधयताम् यथा सोमस्रुजेयसवानर्भोणाम्भवादिप्रियः एवाम लभवो वर्च आत्मनेधयताम् मधुजनिषेय मधुवंशेय पयः सालग्नागहनसम्मासंस्रयवर्च सा जया समायुषा विजर्मे अस्य देवा इन्द्रो विद्यात्सहर्षेभिः यथामथो मधुकृतः सम्भरन्निमधावधे देवा मे अश्विवच्च आत्मनेभ्यताम् यथामक्षा इदम् मधुर््यञ्जन्निमधावधे े वा मे अश्विनावच्चस्तेजाबलमोजश्चियताम् यद्गिरिशुपर्वत शुभोश्वेषु शु जन्मधो सुरायाम् सुच्यमानाया यत्तत्र मधु तन्महि अश्वेनासारघेन मा मधो नाङ्गम् शुभस्पति यथावचस्व तेम् वाच स्तेवाक् प्रजापते वृषा सुम् शिवशिभो ञ्यान् द्विवे काम् वशवमुखा जीवन्ति सर्वे ते न शेषमूर्धम् विपत्ते पृथिवे दण्डोन्तरिक्षम् गर्भाविद्यप्रकचोहेरण्ययोः बिन्दुः यो वैकशाय मधो निवेद मधोमान् भवति ब्राह्मणश्च राजाजधेनश्चानग्वांश्च वेहेश्च यवश्च मधो सप्तमम् मधोमान् भवति मधो, मधो, मधो मदस्याहार्यम् भवति मधो मतो लोकान् जायति य एवम् वेद यद्वेद्धे स्थनय ेव तत्प्रजाव्यप्रादुर्भावते तस्मात्प्राचेनोपवेदतिष्ठे प्रजापतेनो मा मध्यस्वेति अन्वेन प्रजा ने च सपर्मान्ममापादयत्वमभिष्टोतो महता वीर्येण यन्मे मनः सोऽनुप्रियम् न चक्षोषोऽ यन्मेव भस्मिनाभिनन्दते तद्दुष्वम् मृदेमुञ्जामि सपर्धे कामुम् भेदेयम् द्विष्वम् कामृदुरितम् च कामा प्रतस्तामस्वगतामवर्तिम् उग्रयैशानप्रदेमुम् च तस्मिन् च अस्मभ्यामम् होरणाचिकित्सात् उदः स्वकामप्रणोदस्वकामावर्तेयम् तु मम ये सपत्नाः तेषाम् सा ते कामदुहिताथेनुरुच्यते यामाहुर्वाचम् कवयो विलाशम् कया सपत्नान् परे गन्ध्ये मम पर्येनाम् प्राणः पशवो जीवनम् वृणक्तो कामस्येन्द्रस्यवलोढस्य आज्ञाविष्णार्फलेन समितः अग्नेरुहोत्रेण प्रणोदे सपद्नान् संदेव नवमुदकेषु धीराः अध्यक्षो वाची मम काममुग्रः शृणोतु मह्यामसपद्मेव विश्वे देवामम नाथम्भावन्तु सर्वे देवाहव मायन्तु म इमम् इरमाज्यम् युद्धम् <Sess> हन्वन्तामह्यामसपत्नमेव इन्द्राग्नी कामसरसञहितो सपत्नान् मम पादयाथः एषाम् पन्नामतमातमाम् स्यग्वास्थोऽन्यनुर्दहत्वम् जहित्वम् काम मम ये साः सन्तु सर्वे मा तेजे विचक्रतमश्च नाः अबाधेत् कामो मम मये सपत्नाः पुरम् लोकमाकरम् न ह्य मेधतुम् मह्यम् रसायकप्रणुक्तानाम् पुनरस्ति निवर्तानम् अग्निर्यवैन्द्रायवः सोमायवाः यवायावा नो देवाया वयन्त्रैनम् असर्ववेरश्चरसप्रणुत्ता द्वेश्रमित्राणाम् परिवर्ग्या प्रथिव्यामपस्यन्ति विद्युत उग्रो वेव प्रमृण समर्थान् सुदा च विद्युद्बे भर्त्यस्तनयत्नूंश्च सर्वान् उद्यन्नादित्योद्रवेणेन तेजसा नीचे मे सहस्तान् यत्ते कामशर्मद्धिवरो समुद्वद्ब्रह्मवर्म ्याध्यम् कृतम् तेन समर्थान्तरे ग्रन्थे मम पर्येनान् प्राणः पशवो जीवनमृणक्तो येन देवासोराम् प्राणोदम् तयेनेन्द्रोदस्यो न धर्मन्द्रमो तेन पङ्का मम मये समर्धास्थानस्मान् लोकाप्रणोदस्तदूरम् यथा देवासूरान् प्राणोदन्तजेन्द्रादस्यो यथा मन्दमोऽपबाधे तथा तुङ्गा माममये दूरं कामो यज्ञप्रथमोदैनम् देवाविदरोनमत्याः प्रतस्तमसिज्यायान्विश्वः महास्त ्रीणोमि यावेद्यावा पृथिवेव लम्नाय वदापशिष्य गुर्यावदग्निः परस्तमासिद्ध्यायान्विश्वः महांस्तस्नेदेकामनमयित्कृणोमि यावधेर्दिशप्रदिशोऽभिशोचेर्यावचेराशाभिचक्षणादिवः ततस्तमसिद्ध्यायान्विश्वः महांस्तस्मैते कामनमयि क्रीणोमि कावतेर्भृङ्गा दत्तः पुरोरभो यावतेर्वघावृक्षसप्यो बभो ततस्तमसिद्ध्यायान्विश्वः महांस्तस्मैते कामनमयि क्रीणोमि यान्निशतो चतुष्ठगोध्यायाम् समुद्रादासिकाममन्योस्त्वमादिद्यायान् विश्वमहांस्तस्मै कामनमैत्रे नो मे न वैवातश्चन कामात्मादिनाग्निः सोर्यानोत चन्द्रमाः अकस्त्वमसिद्यायाम् विश्वः महांस्तस्मै दे कामनमयिक्मि शिवास्तन्वः कामभद्रायाभिः सत्यम् भवति यत्र णीशे ताभिष्टमस्माभिसंवेशस्वान्यत्र पापैरपवेशयाधियाः उपनिमिताम् प्रतिपितामुचोपरिमितामुत शालाय विश्ववाराय नद्धानि विग्रहदामसि नद्धम् विश्ववारे पाशो ग्रन्थिश्च यः कृतः बृहस्पतेवाहम् बलम् वाचा विस्रंसयामि तत् आयामसम्भाव ग्रन्थेश्च कारते दृढान् परांसि विद्वांसस्तेवेन्द्रे ददामसे क्षाणाम् विश्ववानेतेनद्धाने वि त्रामसि सङ्गम् नानाम् पलादानाम् परे शौञ्जल्यस्य च मानस्य पत्न्या नाने वि च दामसि ज्ञाने तेन्दः शिक्यान्यामेधोरण्यायकम् प्रदेतानेत्रामसि अभिर्थानामग्निशालम् पत्येनाम् सदानम् सदाः सदो देवानामसि दे विशाले अक्षोमोपशम्वितम् सहसाक्षम् वेशोवते अवनद्धमभिहेतम् ब्रह्माणामि च तामसे यस्त्वा शाले प्रतिगृह्णातु येन चासेमिता उभौ मानस्य पत्नितौ जीवाथाञ्जलदष्टि अमुत्रैनमागच्छता दृढा नद्धा परिष्कृता यस्यास्क विशतामस्यङ्गामङ्गम् परस्फुरुः कस्याले निमेमाय सञ्जाबवनस्पतेन पजाये चक्रे चाले परमेष्ठे प्रजापादिः नमस्तस्मै नमो धात्रे शालापतये च कृण न मा प्रचलते पुरोषाय गते नमाः गोभ्याश्वेऽभ्यानमायच्छालायाम् विजायते विजापतिप्रजापति विषयभाषाम् श्रुतामसे अग्निमन्तश्चादयसि पुरोषान्वशुभिः विजावति प्रजावति विदेशाम् स्तुदामसे अन्तराद्यान्तपृथिवेञ्जयव्यजस्थेन शालाम् कृते गृह्णामित इमाम् निरन्तरिक्षम् प्रजास्वाभिमानम् दत्तृण्हमुदरम् च वधिभ्याः विश्वान्यम् लभ्यते शाले माहिन्द्रे प्रति गृह्णातः तृणैरावृतापलताम् वशा नारात्रेवशाला जगतो निवेशानि मित्रावृथिव्याम् दष्टसि हस्तिने पद्वतितश्च ते वित्रेतान्यपेन धमपान्वन् वरोणेन समुर्जिताम् मित्रः प्रातर्व्यब्जतो ब्रह्मणाशालाम् निताम् जगन्निता इन्धाग्ने रक्षताम् धालामृतो सौम्यम् पराह गुलायेधे गुलायम् कोशे कोशः समुर्जितः पत्र मत्वा विजायते यस्मात् विश्वम् प्रजायते या त्रिपक्षा चतुष्पक्षा षट्पक्षाया अष्टावक्ष्याम् दशापक्षाम् शालाम् मानश्च पत्न्येमज्ञर्थादिवाशाये प्रदेचेन् त्वा प्रदेजेन शाले प्रेङ्य हिंसते अग्नर्जः आन्तरापश्च प्रथमा द्वाः इमा प्रभाम् ग्रहानुपप्रसेदाम्यमृतेन सहाज्ञिणा मा नपाशम्प्रदेमुजो गुरुर्भावो लघुर्भाव वधो मे भक्त्वा शाले यत्र कामम् भरामसे आच्यादिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः दक्षेदा नमो शलाया नो महिम्ने स्वाहा देवेभ्यः स्वाक्येभ्यः ऋवेच्यादिशशालायानमो महिम्ने स्वाहा देवे स्वाक्येभ्यः ध्रुवा यादिश ो देशः नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः स्वाहस्वेश देशभप्पयः स्वान्विश्वा रूपाणि वक्षणा सुबिभ्रदे भद्रम् दात्वे यजमानाय अपाय्योऽग्रे प्रदेमा बभो वप्रभोः सर्वस्ते वृषिमेव देवी पिता वत्सानाम् पतेरज्ञानाम् साहस्य पोषे अपेनः शृणोतु उमानन्तर्वान् सवेरः पयः स्वान्वशोकोपी भर्ति तमिन्द्राय पतिभिर्जेवर्हृत अग्निर्वाहतु जातवेद पिता वत्सानाम् पतेरज्ञानामथो पितामाहताम् गर्गाराणाम् वत्सो जराय प्रतिभक्पीयोष आमिक्षा घृतम् तत्तस्य वेताः देवानाम् भागगोपनाह येषो गोपाम् रसवोषाधीनाम् घृतस्य सोमस्य भक्षमावृणेत शक्रो बृहन्मद्रेरभवध्यक्षरेरम् सोमेण पूर्णम् कलशम् बिभर्ष त्वष्ठपाणाञ्जलितापशूनाम् शिखास्ते सन्द्वप्रजन्म इह या इमान्या आत्मभ्यम् स्वधिते यच्छाया इन्द्रस्य चोपमृषभावस्माम् देवाशिवयतो दत्तः इन्द्रस्यौजावरोणस्य बाहो अश्विनारंसो मरुतामियम् ककृत् बृहस्पतिम् सम्भृतमेतमाहुर्ये धीरासकवयो ये मानिषिनः देवेऽपि शक्पयः स्वानाथ नो हि द्वामिन्नम् त्वाम् सहस्रम् त एकमुखादता द्वियो ब्राह्मणरे शुभमाजुहोति बृहस्पतिश्च पिता सेवयोगौ त्वश्चर्वा याः पर्यात्मा ता भृतः अन्तरिक्षमनसात्ताजुहोपि बर्हिष्ठेद्या वा पृथिवीभुहेस्ताम् न देवेषु गोश्वेति विबावदत् स्य ऋषभस्याङ्गारिब्रह्मासंस्तौ तुभद्रया आस्य आस्तामनोमत्या भयस्यास्तामनो मित्रम अष्ठेवन्तामब्रवेन्मित्रामैतो केवलाविति भसदासेदादित्यानाम् श्रोणी आस्ताम् बृहस्पतेः उत्संवातस्य देवस्यो नाच्चोषधीः उदासन्सि ने बाल्याः सूर्यायास्त्वजामब्रुवन् उत्थातुरब्रुवन् पदरे सफञ्यदकल्पयन् क्रोडायेद्यामिशंसस्य सोमस्य कलशोऽधृतः देवाः सङ्गत्य यत्सर्वलशाभम् एकुष्ठेकाः सरमायेकोऽर्मेभ्य एक लभः शभान् गोमध्यमश्चकेटेभ्यः स्वभक्तेभ्योऽधारयन् श्रृङ्गाभ्याम् रक्षर सत्यवर्तिम् हन्ति चक्षोषा शृणोते भद्रम् कर्णाभ्याङ्गमायः पदेलज्ञः शतया शंसयाजतनैनम् जिन्वन् विश्वेतम् देवायो ब्राह्मण रेषभमाजुहोति ब्राह्मणेभ्यः वृषभम् दत्तावलीय कृणुते मुनः पुष्ठ्यम् स अज्ञानाम् स्वोष्ठ्येव पश्यते गावः सन्तः प्रजाः सन्त्वथो अस्तु तनो बलम् तत्सर्वमनो मन्यन्ताम् देवालेशभदायिने अयम् पिपानयन्द्रयन्दधातु नहीं च तनी अयम् धेनुम् सुदुःखाम् नित्यवत्साम् वशम् दुहाम् निपश्चितम् परो दिवः विशङ्गरूपो न भासो वयोधा अयेन्द्रः शुष्मा विश्वरूपो नागन् आयोरस्मभ्यम् दधत्प्रजाम् च रायश्च पोषेरभिनः सचताम् उपेहोपमर्जनः स्मिङ्गोष्ठ उपमृञ्जनः उपवृषभस्य यत्रेत उपेहन्द्र तव वीर्यम् एतम् वायुपानम् प्रचेदध् मास्तदेन क्रीडन् देश्च तव मानो हासश्च जनुषा सुभागारायश्च पोषेरविदः स गर्भम् आनयैतमारभस्मसुकृताल्लोकमपे गच्छतु प्रजानन् प्रेत्वा तमां च बहुधा महान् जजोना क्रमाक्रमताम् तृतीयम् इन्द्राय भागम् बलित्वानयाम् यस्मिन् शज्ञे जयमानाय सूर्यम् येनाद्विषन्त्य नताङ्गभस्मानागसौ यजमानस्य वीराः प्रपदो वने निर्गेश्च निगम् यच्च च शुद्धैः सफैराक्रामताम् प्रधानन् ते त्वा तमाम् सुबुधा विपश्यन्नजनकमाक्रामताम् तृतीयम् अनुच्छश्यामेन त्वच मेताम् वेषस्तर्यथा पर्वा आसि नामाभिमं माभिद्रोह अनुषकल्पयेन तृतीयेनाके अधिविश्रायेणम् न च कुम्भे मध्यं श्रयाम्य सिञ्चातकमवधेह्येनधत्ताग्निनाशमिदाश्रुतो गच्छतु सुहृताञ्ज्यत्र लोकः पुत्रामादः परिचयतप्तास्तप्ताश्चरोरधिनाकम् तृतीयम् अग्नेरग्निरसितम्ब भो विसज्योतिष्पन्तमभिलोकम् जायितम् अजो अग्निरजमुद्योते राहुरजम् जीवता ब्रह्मणे देयामाहो अशस्तमाम् च वहन्विदोरमस्मिन् लोके श्रद्धानेन दत्तः पञ्चोदरः पञ्चथा विक्रामतामात्र मा शस्त्रे निज्योतिरंषे सुकृताम् प्रेहिमर्थ्यम् तु देये नागे अधिविश्रयस्व अचारोः सुकृतान्यत्र लो लोकस्य रघोदकर्तोण्येह पञ्चोदना ब्रह्मणे नीयमानः स तातारम् कृत्यादर्पयाति अजस्त्रे नाके त्रे दिवेत्रे पृष्ठे नाकश्च पृष्ठेन दिवांसम् दधाति पञ्चोदनो ब्रह्मणे दीयमानो विश्वरो बाधे नुक्तामतुभास्ये एतद्वा ज्योतिः पितरस्तृतेयम् पञ्चोदनम् ब्रह्मणे दं अजस्तमाम् शहन्ति दोरमस्मिल्लोके श्रद्धानेन दत्तः ये जानानाम् सुकृताल्लोकमेत्सम् पञ्च बोदनम् ब्रह्मणे चन्दर्दाति सव्याप्तिमभिलोकम् च यैतम् शिव अस्मभ्यम् प्रति गृहेतोऽस्तु अजोष्ट्या आग्ने विप्रश्च सहसोऽपि कश्चित् इष्टम् वोक्तमभिपोक्तम् वशः कृतम् तद्देवाशः कल्पयन्तु अमोदम् वासो दद्याद्धिरन्यमपि दक्षिणाम् तथा लोकान् समाप्नोदि ये दिव्याये पार्थिवाः स्वाजोपायम् तु धाराः सोम्या देवेऽर्घृतपृष्ठामधुश्च्युताः सभा न प्रेशिवे मुदध्यान्नागश्च अजो ओस्य स्वर्गो सि त्वया लोकमङ्गेन स प्राजानन् सर्व ेने मै यज्ञन्मा वहस्तर्देवे सुगन्धवे अरः पद्मस्वर्गे लोके दधातिपञ्चोदना निर्वृतिम् बाधामानः तेन लोकान्सूर्यवतोचयेम यम् ब्राह्मणे निथेयम् च भिक्षुया विप्रुषावोदनानामजस्य सर्वम् तदज्ञे सुकृतस्य लोके च नेतान्नः सङ्गमनेपथीनाम् अजो वा इदमग्रेव्यक्रमदतस्योरायमभवद्यौ एष वा अपरिमितो यज्ञो यदः ये पञ्चोदनः अपारिमितमेव यज्ञमाप्नोत्यपारमितम् लोकमवरुन्धे यो ओचम् पञ्चोदनम् दक्षिणाज्योतिषम् ददाति नास्यास्थ्येन भिञ्जान्नमज्ञो निर्धारेत् सर्वमेनम् समादायेतमेदम् इदमेदमेवास्य रूपम् भवति च नैनम् सङ्गमयते विषम् महावोर्जमस्मै दुहेयो ओचम् पञ्चोदनम् दक्षेणा ज्योतिषम् ददाति पञ्चलक्मा पञ्चलवानिवस्त्रास्मै शेनवकामदुघा भवन्ति वयो कोचम् पञ्चोदनम् दक्षेना ज्योतिषम् ददाति पञ्च ऋक्माज्ज्योतिरस्मे भवन्ति वर्मवासाम् श्रितन्वे भवन्ति स्वर्गल्लोकमश्नुतेयो ओचम् पञ्चोदनम् दक्षेना ज्योतिषम् ददाति यावोर्वम्पतिम् भित्त्वा धान्यम् विन्दते वारम् पञ्चोदनम् च तावचम् ददा सो न वियोशतः समानलोको भवति गुणर्भुवापारपदेः यो ओजम्बन्दोदनन्दक्षेणाज्योतिषम् ददाति अनुभूर्ववत्साम् धेनुमानष्ट्वाहामुपाबर्हणम् पाहो हिरण्यम् धत्त्वा चेयम् चिदिवमुक्तमा आत्मानम् पितरम् पुत्रम्भवोकम् पितामहम् ्यायाम् जनित्रे मातवय्ये प्रियासानुपक्वये यो वैनैदाघन्नामत्त्वम् वेद एष वैनैदाघो नामत्वमयदजः पञ्चोदनः निरेवाप्रेयस्य धाद्रव्यस्य श्रियम् दहरि यो ओजम् दक्षिणा ज्योतिषम् यो वै कुर्वन् तन्नामर्तुम् वेद कुर्वते कुर्वते मेवाप्रेयस्य भ्राद्रव्यस्य श्रियमादत्ते एष वै कुर्वन्नामर्तर्यदाजः पञ्चोदनः विदैवाप्रेयस्य भ्रातृव्यस्य श्रियम् दहति भवत्यात्मना यो ओजम् पञ्च यो वै संयम् धन्नामर्तुम् वेद संयतेम् संयतेमेवाप्रेयस्य भ्रातृव्यस्य श्रियमादत्ते एष वै सैयन्नामर्तौ यदयः पञ्चोदनः निरेवाप्रेयस्य भ्रातृव्यस्य श्रियम् दहति भवत्यात्मना योजम् पञ्चोदनम् दक्षिणा ज्योतिषम् यो वै बिन्वन्दन्ना भक्तुम् वेद बिन्वदे बिन्वदेमेवाप्रेयस्य भ्रातृव्यस्य श्रियमादत्ते एष वै भिन्वन्ना भक्तौ यद अजः पञ्चोदनः निरेवाप्रेयस्य भ्रातृ यस्य श्रियम् न हति भवत्यात्मना यो ओजम् पञ्चोदनम् दक्षेणा ज्योतिषम् यो वा वृत्त्यम् तन्नामर्तुम् वेद उद्यते मुद्यते मे वाप्रेयस्य भ्राद्रव्यस्य श्रियमादत्ते एष वा वृत्त्यम् नामर्तुर्यजः पञ्चोदनः तिरेवाप्रेयस्य भ्राद्रव्यस्य श्रियम् दहति भवत्यात्मना यो ओजम् पञ्चोदनम् दक्षिणा ज्योतिषम् ददाति यो वा विभुवन्नामर्तुम् वेद अभिभवन्त्येव भवन्तेमेवाप्रेयस्य भ्रातृव्यस्य श्रियमादत्ते एष वा विभोर्नामर्तरु यदजः पञ्चोदनः निरेवाप्रेयस्य भ्रातृव्यस्य श्रियम् वह विभवत्यात्मना यो ओजम् पञ्जोदनम् दक्षिणा ज्योतिषम् ददाजे अचम् च पचत पञ्च चौत सर्वादिशः सम्मानः साध्ये चेत् सान्तर्ते स्वादे गृह्णन्तु स रक्षन्तु पवृभ्यामेधन्ताभ्याज्यम् अरिरजन्तु होमि नो विद्यात् ब्रह्म प्रत्यक्षम् परों नोक्यम् सा मानियस्य लो मानियजो हृदयमुच्यते परिष्टरणमिद्धाभिः यद्वादिपदिरथेन्द्रदेवस्य देवयजानम् प्रेक्षते यदाभिवदति देक्षामुपैः दियजोतकैयाजत्यवप्रणायते या एव यज्ञापप्रणीयम् ते तायेवता यत्तत्पाणमाहरम् ति येवाज्ञोमेयः पशुत्पध्यते स एव सः सदावसथा कल्पयन्ति सतो हविर्धानान्येव तत्कल्पयन्ति यदोपस्तृणन्ते बर्हिरेव तत् यदोपरिशयानमाहरम् यः सर्गमेव तेन लोकमवारुन्धे यत्काशिगोपर्हाणमाहरम् जेधया एवतेभ्यञ्जनमाहरम् त्याज्यामेव तत् यत्पुरापारिवेशाख्यासमाहरम् जरोडाशामेवतौ यदा शनकृतम् भयम् सलमुसलानिग्रावाण एव ते सोऽपम् पवित्रम् तुषाभिषपा निलापाः सृग् क्षणमाजवानन्द्रोणजनाशात् कुम्भ्याः वायव्याः निपात्रा नियमेव कृष्टा जिलम् प्रयमाण ब्राह्मणम् वा ये भूय उद्धाले च प्राणमेपते न वर्षीयाम् सङ्कुरुते उपाहरति हवेम् श्यासादयते तेषामासन्नामतेरात्मञ्जो होति सृजाहस्तेन प्राणे एते वै प्रियाश्चाप्रेयाश्च द्विषः स्वर्गम् लोकङ्गामयम् दयदतिथयः स एवम् लिब्दान्न द्विषन्नश्नेयान्नलिलेशतान्नमश्नेयान्न मे मांसिदस्य न मे मांसमानस्य सर्वो वा एष जग्धमात्मा यस्यान्न मश्यन्ते सर्वो वा एषो जग्धमात्मा न्ति सर्वदा वा एष युक्तग्राहा वाद्रपावित्रो विताहृदयज्ञोपाहराति राजापत्यो वा एतस्य यज्ञोपितातो यवोपाहरति प्रजापातेर्वा एष विक्रामाना न विक्रामते यवोपाहरातिनाम् साहवनीयो निषकारः पत्यो यस्मिन् पचन्दिक्षिणाग्निः कृम् च वा एष पूर्तम् च गृहाणामष्टोदे च रश्नाति पयश्चवा एष रसम् जगृहाणामष्टयः पूर्वोदेश रश्नाति ऊर्जाम् च वा एष स्वादिम् च गृहाणामश्च पूर्वोदे च प्रजाम् गवा एष पशूंश्च गृहाणामश्चादयः पूर्वदे च रश्नाति कीर्तिम् गवा एष यशश्च ग्रहाणामष्टादयः एष वा ते धिर्यश्रोत्रे यस्तस्मात् पूर्वागाश्नीयात् अधिना वत्यते यज्ञस्य सात्मत्वाय यज्ञस्य विच्छेदाय तत्प्रतम् एतद्वा वुस्वादेयो वा माम् संवातते स एवम् विद्वान् क्षेरमोपसिच्योबलति यावादग्नेो मेनेष्ठा सुतावृद्धेनावरुन्धवादने स एवम् विद्वान् सर्पिरोपसिच्योपहलति यावादतिरात्र सत्येनेष्वासु सावृद्धेनावरुन्धे तावदनेन स एवम् विद्वान् मांसमोपसिष्ठपहरति तावद्वादशाहेनेष्वासु सावृद्धेनावरुन्धे तावदरुन्धे स एवम् विद्वानोदकमोपसिष्ठ्यो अपहरति प्रजानाम् व्रजनानाम् गच्छति प्रतिष्ठाम् प्रियः प्रजानाम् भवति य एवम् विद्वानोदकमोपहित्योपहरति अस्मा उषाहिन्द्रेणो दिशभिता प्रस्थो दे बृहस्पते रोर्जयोद्गायति त्वप्रदेहरति विश्वे देवामिधनम् इधनम् भोत्या प्रजाया पशूनाम् भवति य एवम् तस्मादुद्यान् सूर्योहिन्द्रेणोदिषङ्गस्थोदि मध्यन्ते न उद्गायच्च बलाह्नप्रदेहवत्यस्थैर्यन्निधनम् निधनम् भोत्यात्प्रजायात् पशूनाम् पर्वति एवम् वेद तस्माप्रोभवन्निन्द्रे नोदि स्थनयन्वस्थो विद्योगमानप्रदेहरति वर्षन्मुद्गायत्युद्गृह्णन्निधनम् निधनम् भोद्या प्रजायाः पशूनाम् भावति य एवम् वेद अजेथेन्प्रदे पश्यति हिङ्ग्रेणाद्यभिवादति प्रस्थोद्युदकैयाचत्युद्गायति उपहरति प्रदेहरत्युच्छिष्टम् निधनम् विधरम् भोक्त्या प्रजायाः पशूनाम्भावम् वेद यच्छक्तारम्भयत्याश्रावयत्येव तत् यत्प्रातिशृणोदिप्रत्याश्रावयत्येवतत् यत्प्रादिवेष्टारः पात्रा हस्ताः पूर्वे चापाले च प्रपद्यन्ते च मासाधर्यवशेवत् क्लेशाण् यद्वादेशिपनिरदेशेन्वनिविश्य गृहाणो बोधयित्यभृतामेव तदनुभावैति यत्सभागय दुलक्षेणास्तभागय दीयतानुतिष्ठात उदवस्यत्येव तत् सौपाहोदः पृथिव्याम् भक्षयत्युपाहोतस्तस्मिन्न्यत् पृथिव्याम् विश्वरूपम् सौपाहोतोऽन्तरिक्ष भक्षयत्युपाहोतस्तस्मिन्यन्तरिक्ष विश्वम् सौपाहोतो दिवि भक्षयत्युपाहोतस्तस्मिन्यद्दिविश्वपम् सौवाहोतो देवेशो भक्षयत्युपाहोतस्तस्मिन्यद्देवेशो विश्वरूपम् समुपाहोतो लोकेशो सोपाहूत उपाहूतः दे, उपा आप्नो देवम् लोकमाप्नोत्यमुम् चिष्मतो लोकाञ्ज्राय निय एवम् वदा प्रजापादिश्च परमेश्चे च शृङ्घ इन्द्रशिरो अज्ञल्ललाट यमष्टिकाहादम् स मो राजामस्तिष्वारत्परहनः पृथिव्याधरहनुः विद्य जक्वा मरुतोदन्धाः रेवते ग्रेवाकृत्येका स्कन्धाघर्मो वह विश्वम् वायुस्वको लोककृष्णम् वितरणे निवेश्यः श्येनकोडम् दलक्षम् पादस्याः पत्ने पृष्ठया उपासदः परुषावः मित्रश्च अपरोणश्चासौत्पृष्टा चमाच दोषिणी महादेवो बाहू इन्द्राणी भजद्वायः पुच्छम् पवमानो बालाः ब्रह्मा चक्षत्रम् चोणीपलामूरु धाता चा विधाता चाष्ठेवन्तो जङ्घ्रा गन्धर्वा ुष्ठे कादिषाः चेतो हृदायै यकम् मेधाव्रतम् बोधेतत् च कुक्षिलावः पर्वता श्लाशयाः क्रोधो वृत्तौ मन्युराञ्जौ नरे श्रोत्रे वर्षस्य पदा यस्तरास्तनयक्नुरोधाः विश्वव्याचारष्टर्मौषधयो लोमानि नक्षत्राणि रूपम् देवचनावृदा मनुष्या आन्त्राण्यत्रा उदरम् रक्षान् शिरोहेतमिदरजानागोवर्ध्यम् अभ्रम् देवो मज्जा निधनम् अग्निनाशेनवोत्सेतोऽश्विना इन्द्रः प्राङ् तिष्ठन् दक्षिणातिष्ठन् यवः प्रत्यङ्गन् धातोदम् तिष्ठन् स पिता प्रणानिप्राप्तः सोमो राजा मिद्वीक्षमाणावृत्तानन्दः विज्यमानो वैष्वदेवो युक्तप्रजापदिर्विमुक्तः सर्वम् एतद्विश्वपम् सर्व रोपम् उपयनम् विश्वरोपाः सर्वरूपापचवस्तिष्ठन्ति य एवम् वेद चेर्षत्यम् चेषामयम् कर्णशूलम् वे लोहितम् सर्वम् चेत्सन्यम् च लोकम् बहिर्निर्मम् जयामहे कर्णाभ्याम् चैकङ्को जेभ्यः कर्णशूलम् विसन्पातम् सर्वम् शेषर्षण्यम् ते लोगम् बहिर्निर्मम् गयामहे यस्या हेतोप्रत्यवायस्पः कर्णकहास्यतः सर्वम् शेषर्षण्यम् ते लोगम् बहिर्निर्मन् गयामहे कृणोदिष्प्रमोदमन्थम् कृणोदिबोरोषम् सर्वम् शेषर्षण्यम् ते अङ्गभेदमङ्गरम् यस्वाङ्ग्यम् विषम्पाकम् सर्वम् शेरसन्यम् प्रेरोगम् बहिर्निर्मन्द्वयामहे यस्य भेमप्रतिकाशमुद्देपयतिपोरोषम् सत्पानम् विश्वसारवम् बहिर्निर्मन्वयामहे यपोरोहानुसत्पत्यथोयेति कबीलीके यक्ष्मन् ते अन्तरङ्गेभ्य बहिर्निर्मन्तयामहे यदि कामादपकामादृयाज्याय ते परि ततोपनासमङ्गेभ्य बहिर्निर्मन्तयामहे परिमाणम् ते अङ्गेभ्योऽ पामन्तरोदरात् यक्ष्मो धामन्तरात्मना बहिर्निर्मन्तयामहे आस यक्ष्मानाम् सर्वेषाम् विषम् निरवोच महन्तते बहिर्विलन्यद्रावतुकाः बाहन्तवोदरात् यक्ष्मानाम् सर्वेषाम् विषम् निरवोच महन्तत् उदरात् या सेवानम् विरजन्ते मोत्थानम् प्रत्यर्षणीः अहिम् सन्देरनामाया निद्रावन्द्वबहिर्बिलम् ग्राहृदयमुपर्षन् च अनुगन्वन्ति गीकासाः अहिम् सन्देरनामाया निर्द्रावन्द्वबहिर्बिलम् याः पार्श्वोपर्षन्त्यनुनिक्षन्ति वृष्टेः अहिम् सन्देरनामायानर्द्रावन्त बहिर्बिलम् या स्थिरश्चेरुपर्षन् कर्षणेर्वक्षणाः सुते अहिम् सन्देरनामायानर्द्रावन्तो बहिर्बिलम् या रुदासर्पम् यान्त्राणि मोहयन् निश अहिम् सन्देरनामाया निर्दवन्तु बहिर्बिलम् यामज्ञा निर्धयम् च वरोहम् चिविरोचम् ते च अहिम् सन्तेरनामायानिर्द्रावन्त बहिर्विलम् ये अङ्गानि मदयन्ते यक्ष्मा सौरोपणास्तव यक्ष्माणाम् सर्वैषाम् विषन् निरवोचमहन्त्व विसर्पस्य विद्रथस्य वादेकारस्य बालाजेः युक्ष्माणाम् सर्वेषाम् विषम् निरवोचमहम् ते वाभ्याम् ते कानुभ्याम् सोणिभ्याम् परिभम् च सन्ते शीर्ष्णः कपालानिहृता यस्य उद्यन्नादित्यलक्ष्म्यभिः शेष्मारोगमनेन साङ्गभेदमाशेषमः अस्य वामस्यापलितस्य होदष्टस्य भ्राता मध्यमो अस्य स्नाः तृतीयोऽभ्राता घृतपृष्ठ अस्यात्रा वश्यम् विस्तम् सप्तपुत्रम् सप्तयुञ्जन्दिरसमेकाजक्रमे गोस्को वहति सप्त नाम भे चक्रमचरामनर्मयत्रेणा विश्वाभुवानादेतस्थो इमम् नमधिये सप्तदस्थो सप्तयक्रम् सप्त वाहन्त्यश्वाः सप्तस्वसाहारोऽभिसन्नामन्दयत्रकपानिहेत सप्त नाम ओजादर्शप्रथामजायमानमस्थन्मन्दय्यदा नश्चा विभर्ति ओम् न्यासगात्पा क्व स्वित्को विद्वांसमुखात्रश्चोमेतत् इह प्रावीतये मङ्गवेदास्य वामस्य निहेतम् पदम् वेः स्वेक्षेरम् दुःप्रदेगावो अस्य वव्रम्वसानामुदकम् पदापोः पाकः पृच्छामि मनसा वेदानम् देवाना मेनानिहिता पदानि स्य मश्च यदि सप्ततम् तोन्वित कवयवो तभावोत्ताम् चिकेजुनश्चिदत्वा कवेन्प्रक्षाल विद्वद्वा पियस्तम् भरषडिमालजाम् सजस्य रूपे किमपि स्विदेकम् मातापितरा मृदाभादधेत्यग्रे मनसा सम् हि जग्मे त्सल्गर्भारसा निमित्था नभः स्वन्त इदोपवागमेयः युक्ता माता सेद्धुरदक्षेणा यातिष्ठद्गर्भावेष्वन्तः अमेने त्वत्स्वामिकामापश्यद्विश्वभोप्यम् त्रिषु योजानेषु विश्वमातृस्त्रेन्वित्रेण्यभोद्भस्तस्थौलेमवज्ञापयन्त मन्त्रयन् दे दिवो अमुश्च पृष्ठ विश्वविदोवाचमविश्वविन्ना पञ्चारे चक्रपरिवर्तमाने यस्मिन् तस्थो भुवानाधि विश्वा तस्य नाक्षस्तप्यते भोरे भारस्वा देवनच्छिद्यते सनाधि पञ्चपादम् वितरम् द्वादशकृतम् द्विमराहुपदे अर्थे पुरेषिणम् सेमे अन्यमुपादे विचक्षणे सप्तचक्रे षडराहुरर्पीतम् दादासारम् नहितज्जलायलर्वात्रिचक्रम् परिद्यामृतस्य आपुत्राग्नेऽपि क्षुनासोग्र सप्तशतानि विंशतिश्च दस्तुः शनेऽपि सनेमे विवाहामृतमुत्तानायाम् विभावत वहन्ति सौर्यस्योरासेत्यावृतम् यस्मिन्नागस्थोद्भुगानादि विश्व स्त्रियः स्वदे स्वांसा हुप्पश्चा दक्षन्मान्नपि च बन्धः पुत्रस्तयेमाचेकेदयस्ता वेदाना सवितो स्थिता सात् सा क्जानाम् सप्तसामाहुर कजम् खलिध्यमारुषा योजयिति तेषामिष्ठानि विहितानि धामषधात्रे रेचन्ते विक्रेतानि लोपासः अवपरेण परयेनावरेण कदा वत्सम् विभ्राते गौरुतस्थात् सागद्रे चेताम् शिरर्थम् परागात्मस्य सोदेन हि योधे अस्मिन् अवपरेण यः प्रवाचद्धेवम् मनः पुताधिप्रजातम् ये अर्वाचस्ता ओपराजाहो ये पराञ्जस्ता ओ अर्वाच आहो इन्द्रश्चया जग्रथः स्वमताने धुरान युक्ता प्रजासो वहन्ति बासोपर्णासयुजा सुखाजासमानम् रक्षम् बले स स्वजाते अयारन्यभ्युक्पालम् स्वात्मज्जनष्टम् नन्याभिचाकषे यस्मिन् वृक्षमध्वतः सुपर्णानि विशन्ते सुवादे चाधिविश्वे तस्य यदाहोप्युक्पालम् स्वात्मद्भे सन्नोन्न सद्यः पितरन्न वेद यच्चासु पर्णामृतश्च भक्षमनिमेषम् ेनाविश्वस्य गोपाः समाधेरःपा नमत्रा विवेश यज्ञाः यत्रे अधीगा यत्र वाहेतम् क्लेष्टोभम् वा त्रेष्टोभान्निरदक्षत यद्वाचगर्जगर्त्याहेतम् पदय्यैत्तद्विदुश्चे आमृतत्पमानशुः ना यत्रे न प्रतिनिमेते अर्कमर्केण सा मत्रेष्टोभेन पाकेन पाकम् दिपदा चतुष्कलाक्षरेमते सप्तवाणीः जगता सिन्धम् दिव्यस्कभायत्र सन्तशौर्यम् पर्यापश्यत् नायत्रस्य समिध स्तिस्रा हुस्तुतो मह्ना प्रेरुचय महित्वा उपत्यये सुदुघाम् धेनुमेताम् स्वस्तो गोधुपुतदो हरेनाम् श्रेष्ठम् समम् स वितासाभिषन्नो भेद्वा धर्मस्त्र दोष प्रबोचत् हिङ्गम् वचेर सुपत्येव सोनाम् वत्समिच्छन्ते मना साध्यागात् दुहा मत्स्येभ्याम् वयो अध्येयम् प्रावधताम् महादेशौ भागाय सुक्पानम् धर्ममभिमाावयानामिमादिमायुम्बय देवयोभिः अयमसुशिङ्गय न गौरभिवृताभिमादिमायुम्ध्वसनावधिष्ठिता सा जित्यभर्मिः चकारमत्यान्वित्युद्भवन्ते प्रदे व्रिमोहत अनच्छायतुरगादेवमेजध्रुवम् अध्यापस्यानाम् जीवामृतस्य तरति स्वदाभिरमत्यामत्येनाशयोनिः विद्वन्द्वज्ञानम् स निलस्य पृष्ठयुवानम् सन्तम् वयेनो जागाल देवस्य पश्य काव्यम् महित्वाद्याममादसख्यः समान ये च कारणसो अस्य वेदयेन्ददर्शयिन्न तस्मात् समादर्यो नापरे वेदोऽहन्तर्बाहु प्रजानिर्वेराविवेश अपश्यम् गोपामा निपत्य मा नमातपराजपतिभिश्चरन्तम् सत्रे जे सविशो त्रेपशा नमादार्तृभुवाने सन्तः द्योर्नः पिता जानितानाभिरत्रबन्धम् नो माता प्रथिते महीयम् श्चम्भोर्यङ्गलत्ताः पितातो हि दुर्गर्भमाधात् पृच्छामि तापरान्दम् पृथिव्या पृच्छामि विश्व अश्वस्य रताः पृच्छामि विश्वस्य भुवनस्य नाभिम् पृच्छामि वाचः परमम् याम इयम् वे यः परा अङ्गः पृथिव्या अयम् सोमो वृष्टा अयम् यज्ञो विश्वस्य भुवानस्य नाथर्ब्रह्मायम् वाचः पारमम् योम न विजानामि यदि वेदमस्मि निन्यः सन्नद्धामन सा चरामि यदा मागन् प्रथमऋतस्यादिद्वाचो अश्वमे भागमस्याः अपाङ् प्राये स्वधयागुभेदो मत्योमत्येनाशयोनिः राशस्वन्ता विशोचिना वियन्तान्या आन्यम् चैकन्य चैकरण्यम् सप्तार्धगर्भाभुवनस्यरे तो विश्वास्तिष्ठन्दप्रदिशाविधर्मणि ते धे च धर्मणा सह ते कश्चितः परिभुवः रुचक्षरे परमे व्यो मन्यस्मिन् देवाधिविश्वे निषेदो यस्तन्न वेदिमृता करिष्यति यैत्तद्विदस्ते अमी समासते निजा परम् मात्राया कल्पयम् गोर्धतेन चागृपविश्वमेजत् ऋपाद्ब्रह्म पुरलोपम् विदश्चेतेन जीवन् दे प्रदिशश्चुतः सः सोऽयमासाद्भगावो याथामयम् भगावम् तस्याः अध्यतृणामज्ञा विश्वादाने शुद्धमोदकमाचरन्ते गौरिन्मे मायुधानक्षद्यकापदेशा च तस्पते अष्टापादेन वा पदेव भो वशे कृत्स्नम् नियादम्भराय स्वपर्णा अपोऽवधानोत्पादन्ते परादावृत्रा सदा नृतस्यादिधृतेन पृथिवीम् यो दो अपादे पृथमापद्धतेनाम् कस्तद्वान् मित्रा वरुणाचीकेत गर्भो भारम्भागत्याचेतस्य ऋतम् विपत्यगम् निपाहते विराग् वाग्विराग्वे शिवे विरागन्तरिक्षम् विराग् प्रजापादि विराङ्मृत्यः साध्यानावधिराजोता भोवतस्य भूतम् भव्यम् वशेषमे भूतम् भव्यम् वशे कृणोतो सकामयम् धूममालादपश्यम् विशोमता बलयेनावरेण मुक्षालम् वृष्ठेमपचन्दवीरास्तानि धर्माणि प्रथयमान्यासन् नयश्चेशिन दृढा विचक्षुतयसंवत्सरेव पतयेषा विश्वमन्याभिजश्चेशते भर्द्राजेरेगस्य सदृशेन रूपम् चत्वारि वाक्पदेजापदानितानि वितर्ब्राह्मणा ये मेषिणः हात्रे निहिताने गायन्ति तुरीयम् वाचो मानुष्या वदन्ति इन्द्रम् मित्रम् वरोणमग्निमाहुरथो दिव्यः सोऽपर्णो गरुत्वा च एकम् सद्विप्रापहुता वदन्त्यग्नियमम् मातरिष्वानमाहुः ओ